अथ श्रीबृहन्नारदीये पुराणे श्रीनारायण नारदसंवादे पुरुषोत्तममासमाहात्मे विष्णोर्गोलोकगमनं नाम पञ्चमोऽध्यायः नारद उवाच किमुवाच महाभागं श्रुत्वा तदवचनं हरिः चरणाग्रे निपतं निपतितं अधिमासं तपोनिधे श्री श्रीनारायण उवाच शृणुनारदवक्ष्यामि यदुक्तं हरिनानघन्योऽसि त्वं मुनिश्रेष्ठ यन्मां पृच्छसि सत्कथाम् अधिमास उवाच पाहि पाहि जगद्धातः पाहि विष्णो जगत्पते उपेक्षसे कथं नाथ शरणं मामुपागतम् इत्युक्त्वा वेपमानं तं विलपन्तं मुहुर्मुहु तमुवाच हृषि केशो वैकुण्ठनिलयो हरिः उत्तिष्ठोत्तिष्ठभद्रं ते विषादं वत्समाकुरु त्वद्दुःखं दुर्निवार्यं मे प्रतिभाति निरीश्वर इत्युक्त्वा मनसिद्ध्या त्वां तदुपायं क्षणं प्रभु विनिश्चित्य पुनर्वाक्यम् उवाच मधुसूदनः वत्सागच्छ मया सार्धं गोलोकं योगि दुर्लभं यत्रास्ते भगवान् कृष्णः पुरुषोत्तम ईश्वरः गोपिका वृन्दमध्यस्थो द्विभुजो मुरलीधरः न्यवीननीरदश्यामौ रक्तपङ्कजलोचनः शरत्पूर्णेन्दुसौन्दर्य समशोभायुताननः कोटिकन्दरपलावण्य लीलाधाम मनोहरः पीताम्बरधरसृगी वनमाला विभूषितः सदरत्नभूषणः प्रेम भूषणो भक्तवत्सलः चन्दनोक्षितसर्वाङ्गः कस्तूरी कुङ्कुमान्वितः श्रीवत्सवक्षाः सम्भ्राजत कौस्तुभेन विराजितः सदरत्नसाररचितः किरीटीकुण्डलोज्ज्वलः रत्नसिंहासनारूढः पार्श्वदैः परिवेष्टितः स एव परमं ब्रह्म पुराणपुरुषोत्तमः स्वेच्छामजः सर्वबीजम् सर्वाधारः परात्परः निरीहु निर्विकारश्च परिपूर्णतमः प्रभुः प्रकृतेः पर निर्गुणो नित्यविग्रहः गच्छावस्तत्र त्वद्दुःखं श्रीकृष्णो व्यपनेष्यति इत्युक्त्वा तं करीकृत्वा गोलोकं गतवान् हरिः अथ गोलोकवर्णनम् अज्ञानान्धतमोध्वंसम् ज्ञानवर्त्मप्रदीपकं ज्योतिस्वरूपं प्रलये पुरासीत्केवलं मुनी सूर्यकोटिनिभं नित्यम् असङ्ख्यं विश्वकारणं विभो स्वेच्छामयस्यैवं तज्ज्योतिरुल्बणं महत् ज्योतिरभ्यन्तरे लोकत्रयमेव मनोहरम् तस्यैवोपरि गोलोकः शाश्वतो ब्रह्मवंसखी त्रिकोटियोजनायामो विस्तीर्णो मण्डलाकृतिः तेजस्वरूपः सुमहद्रत्नभूमिमयपरः अदृश्यो योगिवे स्वप्ने दृश्यो गम्यश्च वैष्णवैः ईशेन विधृतो योगैरन्तरिक्षस्थितो वरः आधिव्याधिजरा मृत्युशोकभीतिविवर्जितः सदरत्नभूषितासङ्ख्यमन्दिरैः परिशोभितः तदधो दक्षिणे वामे पञ्चाशत्कोटिविस्तरात् वैकुण्ठः शिवलोकश्च तत्समः सुमनोहरः कोटियोजनविस्तीर्णो वैकुण्ठो मण्डलाकृतिः लसत्पीतपटारम्य यत्र तिष्ठन्ति वैष्णवाः शङ्खचक्रगदा पद्मश्रियाजुष्टचतुर्भुजाः स्त्रियो लक्ष्मीसमाः सर्वाः कूजन्नूपुरमेखला वामेन शिवलोकश्च कोटियोजनविस्तृतः लयशून्यश्च सृष्टौ च पार्श्वदैः परिव्यापारितः पार्श्वदैः परिवारितः निवसन्ति महाभागगणायत्र कपर्दिनः भस्मोद्धोलितसर्वाङ्गनागयज्ञोपवीतिनः अर्धचन्द्रलसद्भालाः शूलपट्टिसपाणयः सर्वे गङ्गाधराश्रूरास्त्र्यम्बका जयशालिनः गोलोकाभ्यन्तरे ज्योतिरतीवसुमनोहरं परमाह्लादकं शश्वत् परमानन्दकारणं ध्यायन्ते योगिनः शश्वद् योगेन ज्ञानचक्षुषां तदेवानन्दजनकं निराकारं परात्परं तज्ज्योतिरन्तरे रूपम् अतीव सुमनोहरम् इन्दीवरदलश्यामं पङ्कजारुणलोचनं कोटिशारदपूर्णेन्दु शश्वच्छोभायुताननम् कोटिमन्मथ सौन्दर्य लीलाधामनोहरं द्विभुजं मुरलीहस्तं सस्मितं पीतवाससं श्रीवत्सवक्षसं भ्राजत् कौस्तुभेन विराजितं सदरत्नकोटिखचित किरीटकटकोज्ज्वलं रत्नसिंहासनस्थं च वनमाला विभूषितं तदेव परमं ब्रह्म पूर्णं श्रीकृष्णसंज्ञकं स्वेच्छामयं सर्वबीजं सर्वाधारं परात्परं किशोरवयसं शश्वतगोपवेशविधायकं कोटिपूर्णेन्दुशोभाढ्यं भक्तानुग्रहकारकं निरीहं निर्विकारं च परिपूर्णतमं प्रभुं रासमण्डलमध्यस्थं शान्तं रासेश्वरं हरिं मङ्गलं मङ्गलार्हं च सर्वमङ्गलमङ्गलं परमानन्दराजं च सत्यमक्षरमव्ययं सर्वसिद्धेश्वरं सर्वसिद्धिरूपं च सिद्धिदं प्रकृतेः परमीशानं निर्गुणं नित्यविग्रहम् आद्यं पुरुषमव्यक्तं पुरुहूतं पुरुष्टुतं नित्यं स्वतन्त्रमेकं च परमात्मस्वरूपकं ध्यायन्ते वैष्णवाः शान्तं शांति शान्तिपरायणम् एवं रूपं परं बिभ्रद् भगवानेक एव सः एवमुक्त्वा ततो विष्णु रथिमाससमन्वितः गोलोकमगमच्छीघ्रं विरजो वेष्टितं परम् इति श्रीबृहन्नारदीयपुराणे श्रीनारायण नारदसंवादे पुरुषोत्तममासमाहात्मे विष्णोर्गोलोकगमनं नाम पञ्चमोऽध्याय श्रीपुरुषोत्तमार्पणमस्तु